श्री श्रीगुरुभ्यो नमः हरिहि श्रीमूकपञ्चशति ध्यानम् अगजाननपद्मार्गं गजाननमकर्निशम् अनेकदन्तं भक्तान एकदन्तमुपास्महे श्रीगणेशाय नमः गुरवे सर्वलोकानां विषजे भवरोहिणां हृदये सर्वविद्यानां श्रीदक्षिणामूर्तये नमः श्रुतिस्मृतीपुराणानाम् आलयं करुणालयं नमामि भगवत्पाद शङ्करं लोकशङ्करम् सदाशिवसमारम्भां शङ्कराचार्यमध्यमा अस्मदाचार्यपर्यन्त कन्दे गुरुपरम्पराघाचन्द्रसमानकान्तिवदना नागादिराजस्तुता मोकानामभिकुर्वती सुरधुनी नीकाशवाग्वैभवं श्रीकाञ्चीनकरीविकाररसिका शोकापहर्त्री सताम् एका पुण्यपरम्परा पशुपते आकारिणी राजते शिवशक्त्या युक्तो यदि भवति शक्त प्रभवितुं न देवो न खलु हरिहरविरिञ्चातिभिरव्य प्रणन्तुं स्तोतुं वा कथमकृतपुण्यप्रभवति आर्याशतकम् कारणपरचितृपा काञ्चीपुरसीम्निकामपीठता काचन विहरति करुणा काश्मीरस्तभगकोमलाङ्गलथा कञ्चन काञ्चीनिलयं करतृतकोदण्डपाणश्रुनिपासं कठिनस्तनवरनम्रं कैवल्यानन्दकन्दमवलम्बेम् चिन्दित चिन्तितबलपरिभोषण चिन्धामणिरेप काञ्चीनिलया मे चिरदरसुचरितसुलभ चित्तं शिशिरय दोसेत्सुगाधार कुडिलकचं कठिनकुचं कुन्दस्मितकान्तिकुङ्कुमचायम् कुरुते विकृतिं काञ्चां कुलपर्वत सार्वभौमसर्वस्वं पञ्चचरशास्त्रबोधन परमाचार्येण दृष्टिपदेन काञ्चीसीनिकुमारि काचन मोहयति कामजेतारम् परया काञ्चीपुरह्या पर्वतपर्याय पीनकुचपरया परतन्त्राव्यमनया पङ्कज सब्रह्मचारिलोचनया ऐश्वर्यमिन्दुमौळे ऐकाम्यप्रकृतिकाञ्चीमद्यकधम् ऐन्दवकिशोरशेखरम् ऐतंबर्यं सहास्तिनिगमानम् श्रुतकम्बासीमानं शिथिलितपरमशिवधैर्यमहिमानं कलये पाडलिमानं कञ्चन कञ्चुकितभुवनभूमानम् आदृत काञ्चीनिलयामाध्यामारूढ यौवनाडोभाम् आगमवतं सकलिकामानन्दा द्वैतकन्दलीं वन्दे तुङ्गविरामकुशपदशृङ्गारितवाश्रयामि काञ्चीगतम् गङ्गाधरपरतन्त्रं शृङ्गाराद्वैतन्त्रशित्तान्धं काञ्चीरत्नविभूषां कामपि कन्दर्पसुतिकापाङ्कीं परमाकलामुपासे परशिव वामाङ्कपीडिकासीनाम् कम्बदीरचरणां करुणागोरगितदृष्टिपादानां के केलीवनं मनोमे केषाञ्चित् आम्रतरुमूलवसते आदिमपुरुषस्य नयनपीयूषम् आरब्धयौवनोत्सवम् आम्नाय रगस्य मन्त्रमवलम्बे अधिकाञ्चि परमयोगिभिः आदिमपरपीठसीं विदृश्येन अनुबद्धं मम मानसम् अरुणिम सर्वस्वसम्प्रदायेन अङ्कितशङ्करदेहाम् अङ्गुरितो रोजकङ्गणाश्लेषे अधि काञ्ची नित्यतरुणीम् अद्राक्षं काञ्ची तद्भुताम्बाल मधुरधनुषा महीतरधनुषां नन्दामि सुरबिभाणजुषा वपुषा काञ्चीपुरे केलेजुषा बन्धुजीवकान्तिमोक्षा मधुरस्मितेन रमते मां सल कुशवारमन्तगमनेन मध्ये काञ्चीमनो मे मनसि ज साम्राज्यगर्वबीजेन धरणीमयीं तरणीमयीं पवनमयीं गगनदगनहोतृमयी अम्बुमयीमिन्दुमयी अम्बामनुकम्बमादिमामीषे लीनस्दितिमुनिहृदये ध्यानस्तिमितं तपस्य तुपकम्पम् पीनस्तनभरमीठे मीनध्वज तन्द्रपरमतात्पर्यम् श्वेता मन्त्रहसिते शाता मध्येशवाङ्मनोतीता शीतालोचनपाते पुरतः कथानुकरभैपुरभैरी विमर्तपुलकीधाङ्कलता पुनतीं काञ्चीदेशं पुष्पायुध वीर्यसरसपरिपाठीं पुण्या कापि पुरन्धरी पुङ्कितः कन्तर्पसम्पथा वपुषा पुरमधनम् पुलकनीशुलितं कुरुते तनिमा त्वैतवलग्नम् तरुणारुणसम्प्रधाय तनुलेखम् तटसीम्नीकम् पाया तरुणि म सर्वस्वमाद्यमद्राक्षम् पौष्टिकर्म सविधसीम्निकम्पाय अद्राक्षमात्तयौवनम् अभ्युदयम् कञ्चिदर्दशशिमौळे संस्कृतकाञ्चिदेशे सरसिजतोर्भाग्यजाग्रतोंसे संविन्मये विलीये सारस्वत पुरुषकारसाम्राज्ये मोदितमधुकरविशिकं स्वादिमसमुधाय सारकोतण्ठम् आदृतकाञ्चिकेलनम् आदिममारुङ्ग्यभेदमाकलये उरीकृतकाञ्चीपुरीमुपनिषधर विन्दकुहरमधुधारा उन्नम्रस्तनकलशीम् उत्सव लहरीम् उपास्मके भो। येन शिशुदीर्घलोचनं येन परिपन्धिसन्ततं नमता एकाम्रनाथजीवितम् एवंपत पत धूरमेकम् अलम्पे स्मयमानमुखं काञ्चीम् अयमानं कमपि देवदाभेतं दयमानं वीक्षमुहु वयमानन्तां हृदां कुतुकजुषि काञ्चिदेशे कुमतपोराशिपाकशेखरिते कुरुते मनोविहारं कुलगिरे परिभृडकुलैकमणिधीभे वीक्षे महि काञ्चीपुरे विपुलस्तनकलश गरिमपरवशितं द्रुमसहचरदेहम् विप्रं समवायसारसन्ताहम् कुरुविन्दगोत्रगात्रं कूलचरं कमपि नौमि कम्पायाः कोलङ्कषकुशकुम्भम् कुसुमायुधवीर्यसारसंरम्भम् कुट् मलितकुचकुशोरै कुर्बाणै काञ्चिदेशसौहार्दं कोङ्कुमशोणैर्निशितम् कुशलपदं शम्भुशोकृतसम्भारैः अङ्कितकचेन केनचित् अन्धकर नौषधेन कमलानाम् अन्धपुरेण शम्भो अलङ्क्रिया कापि कल्प्यते काञ्च्याम् ऊरीकरोमि सन्दतम् ऊष्मलपालेन लालितं पुंसा उपकम्पमुषितखेलनम् उर्वेतरवंशसम्पतुन्मेषम् अङ्गालङ्घारमेकसूतपेतः आलोके महि कोमलम् आगम संलापसारयाताप्यं पुञ्चितकरुणमुतञ्चित सिञ्चितमणिकाञ्चि किमपि काञ्चिपुरे मञ्झरितमृतुलहासं पिञ्जर तनुऋषिपिनाकी मूलतनं लोलहृतयोऽस्मि शम्भोः लोचनयुगलेन लेख्यमानायां लालितपरमशिवायां लावण्याम्रततरङ्कमालाया मधुकरसहचरचिगुरे मदनागम समयदीक्षितकडाक्षैः मण्डितकम्पादीरै मङ्गलकन्दैर्ममास्तु सारूप्यं वदनारविन्दवक्षो वा माङ्कतटीव सम्पथीभूता पुरुषत्रतयेत्रेता पुरन्त्रीरूपा कामाक्षी बाधाकरीं भवा ते राधाराद्यम्बुजेषु विचरन्तीम् आदारिकृतकाञ्चीं बोधामृत वीषिमेव विमृशामः कलयां यन्तच्च च धर कलयाङ्कित मौलिं लसित्वलयाम् अलया माघम अलयाघमपीठी निलया फलयारी मंप सर्वाधी पर गुर्वाताय कामपीठजूषे सर्वा कृत शोणिम कर्वास्म समर्प्य हृदय समया शान्त्यमयूकैः समया बुद्ध्या सतैव चीलितयः उमया काञ्चिरतया न मया लभ्येत ताधात्म्यम् स्तवपधपूजन सन्तोषतरङ्गितस्य कामाक्षी बन्तो यति भवति पुनः सिन्धो रम्भस्सुभं प्रमीतिशिला कुण्टली कुमारी कुटिले चण्डी सराचरसवित्रि गुणिनि गुहारिणि गुहये गुरुमूर्ते त्वां नमामि कामाक्षी ये अभिधाकृतिर्विधाकृतिः अचिदाकृतिरपिचिदाकृतिमादः अनहन्ता त्वमहन्त भ्रमयसि कामाक्षी शाश्वती विश्वम् शिव शिव पश्यन्ति समं श्रीकामाक्षि कटाक्षिता पुरुषाः विपिनं भवनममित्रं मित्रं लोष्टं च युवति बिम्भोष्ठं कामिनी कामेश्वरी कामपीठमप्यगते कामदुघा भवकमले कामकले कामकोटिकामाक्षी मध्ये हृदयं मध्ये निदिलम् मध्ये चिरोपि वास्तव्यां चण्डकरचक्रकार्मुख चन्द्रसमापां नमामि कामाक्षी, कामाक्षी अधिकाञ्चिकेलिलोलैः अखिलागमयन्त्रमन्त्रतन्त्रमयैः अतिशीतं मम मानसम् असमचर द्रोहिजीवनोपायैः नन्दति मम हृदि काचन मन्धिरयन्ति निरन्तरं काञ्ची इन्दुरविमण्डलकुचभिन्दो वियन्नाधपरिणातरुणी चम्पालता सवर्णं सम्पादयितुं भवज्वरचिकित्सां लिम्पामि मनसि किञ्चन कम्पातट रोहिसिभैषज्यम् अनुमितकुशकाठिन्यान् अधिवक्षः पीठमङ्गजन्मरिपो आनन्दाम्बजेता आनङ्कब्रह्मतत्त्वबोधशिरा ऐषिषीपाशाङ्कुशधर हस्तान्तं विस्मयार्हवृत्तान्तम् अधिकाञ्चीनिघमवाशा सिद्धान्तं शोलपाणि सुद्धान्तम् आहितविलासभङ्गी आब्रह्मस्तम्भशिल्पकल्पनया आश्रितकाञ्चीमतुलाम् आद्यां विस्फूर्तिमाद्रिये विद्या मूकोऽपि जटिलदुर्गतिशोकोऽपि स्मरदि यक्षणं पवति एको भवति स जन्तुः लोकोत्तरकीर्तिरेव कामाक्षी पञ्चदशवर्णरूपं कञ्चन काञ्चिविहारधौरेयम् पञ्चचरीयं शम्भो वञ्चन वैध्यमूलमवलम्भे परिणतिमतीं चतुर्धा पदवीं सुधियां समेत्य सौषूम्नीं पञ्चा च धर्णकल्पितपदशिल्पा त्वां नमामि कामाक्षी आदीक्षन् आदिक्षान्ता शरात्मिकां विद्यां स्वादिष्टचापदण्डां नेधिष्ठामेव कामपीटघ तुष्यामि हर्षितस्मर शासनया काञ्जीपुरत्कृत्तासनया स्वासनया सकलजगद्गासनया कलितशम्भरासनया प्रेमवती कम्पायां भेमवती यदि मनस्सुभूमवती सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती कौतुकिना कम्पायां कौसुमचापेन कीलितेनानन्तः कुलदैवतने महता कुट्मल मुद्रान्धुनो दुनप्रतिभा यूना केनापि मिलत् देहा स्वाहा सहायतिलकेन सहकारमूलदेशे संभिद्रूपकुटुम्भिनीरमते कुसुमचरगर्वसम्पद् कोशगृहम् भाति काञ्चिदेशगथम् स्थाभितमस्मिन् गोपित गोपितमन्दर्मया मनोरत्नम् षडत्वारण्यं दरदलित कुसुम्बसम्भृतारुण्यम् कलयेनवतारुण्यम् कम्पातटसेम्नि किमपि अची वर्धम अतुला करवाणी पारणा आनंदकता अरुणिम परणागर्वल्लवताश्रुनिपाश का मुख पाणिममुम् कमपि कामपीटगतम् येन धरकोणसूटम् शोनिमा परिपाकभेदमा कलयेम् किम्बा पवति भमान्यैः बिम्बादर शुम्भिमन्दहासमुखी सम्भाधकरी तमसामम्ब मनसि कामाक्षी मञ्चे सदा शिवमये परशिवमय ललितपौष्पपर्यङ्के अदिशक्रमध्यमास्ते कामाक्षे नाम किमपि मम भाग्यम् रक्ष्योऽस्मि कामपीटिलासिकया घनकृपाम् पुरासिकया श्रुतियुवती मालिकया तु हिनशैलबालिकया लीये माये तव तरुण चरने चरणे चंद्राभे कांची शरे नदा मुक्ति बीजे, मूर् भगितशकोरसाम्राज्ये मोदितकम्पाकुले मुहोर्मुहोर् मनसि मुमो दिशास्माकम् वेधमयीं नादमहीं बिन्दुमयीं परबदोऽध्यधिन्तुमयीं मन्त्रमयीं नौमि विश्वविकृतिमयी पुरम धन पुण्यकोटि पुञ्चितकविलोक सूक्तिरसधाटी मनसि मम कामकोटि विहरतो करुणा विपाक परिपाढी कुटिलम् चटुलम् मृतुलम् मृतुलम् कचनयन जगन चरणेषु अवलोकितमवलम्बितम् कम्पातटममेयमस्माभिः प्रत्यङ्मुख्या दृष्ट्या प्रसाददीभाङ्गुरेण कामाक्ष्याः पश्यामि निस्तुलमहो पचेलिमम् किमपि परसिवोल्लासम् विद्ये विदातृविषये कात्यायनी कालि कामकोटिक भारती भैरवी भद्रे शाकिवी शिव स्तुवती मलिनी महेशनी काचिके विभश कालिनी ते शूलिनी विद्रुमशालिनी सुनपालिनी कपालिनी ोऽस्तु देसिक इति किं सङ्घे तत्तातृक्तवनुतरुणिमोन्मेषः कामाक्षीशूलपाणि कामगम समययज्ञदीक्षायाम् वेतण्टकुम्भम्भर वैतण्डिककुचभारात्तमध्याय कुङ्कुमरुषे नमस्याम् शङ्कर नयनाम्रदाय रसयामः अतिकाञ्चितमणिकाञ्चन काञ्चीमतिकाञ्चि काञ्चिद्राक्षम् अवनतजनानुकम्पाम् अनुकम्पाकूलमस्मदनुकूल कुला परिचितकम्पातीरम् पर्वधराजन् सुहृतसन्नाहम् परगुरु कृपया वीक्षे च परमशिवो शम्भो प्रदीय श्रीं ब्रह्मचर्य वैदगती तव देवी तरुणीम श्री चतुरि मे पाको मदजलतमलापत्रा वसनितपत्रा विहरति पुलिन्धयोषा कुञ्जा पूषा मणीन्द्र कृतवेश अङ्गेषु किनि गीते कौतुकिनी परिसरे स जयसी जयसि सविधेम्बभैरव मण्डलिनी श्रवसि शङ्खकुण्टलिनी प्रणत जनता भवर्घा कृ बहुसर्गसी संसर्ग काी मुद्दर्घ हतरी बुवर्घ दुर्घ श्रवणचल दंटा दुतासुरचिकण्ठा देवी कलिदान्तशण्ठ द्रतनरमुण्ठा त्वमेव चामुण्डा उर्वीधरेन्द्रकन्येतर्वी परितेन भक्तपूरणे गुर्वीम किञ्चनार्थिम् कर्वी कुरुषे त्वमेव ताटितिपुपरीबीठना भय निपुणकस मुसला क्रोटभतीषणमुखी ग्रीटसे जगति काम स्मरमदनवरणलोला मन्मतहेला हेला विलासमणिचाला कनकऋषिशौर्यशीला त्वमम्भभाला कराब्जद्रुतमाला विमलपटी कमलकुटी पुस्तकरुद्राक्षसस्तहस्तपुटी कामाक्षी पश्ममालाक्षी कलितवि पञ्ची विभासी वैरिञ्ची कुङ्कुमरुचि पिङ्कमसृक्पङ्किल मुण्डालिमण्डितं मातः जयति तव रूपतेयम् जपपट पुस्तकवराभयकराब्जम् कनकमणिकलितभूषां कालायसकलहशीलकान्तिकला कामाक्षीशीलये त्वां कपाल शूलाभिरामकरकमलां लोहितिमपुञ्जमध्ये मोहितभुवने मुता निरीक्षन्ते वतनम् तव कुशयुगलम् काञ्चीसीमां च केऽपि कामाक्षी जलधीद्विगुणित हुतवः दिशा गच्छसि सर्वोत्तर कुलसहस्रकमलतलं ममलम् कृतदेशिकशरणा सबीजनिर्बीजयोगनिश्रेण्या अपवर्गसौतवलभीम् आरोहत्यम्भकेऽपि तव कृपया जन्तुततेरन्त कान्तक्रुधहन्ते चिन्तितसन्तानवताम् सन्ततमपि तन्तनीक्षीमहिमानम् कलमज्जुलवाघनुमितगलपञ्जर गतसुखग्रौहोत्कण्ठ्यात् अम्बरदानम्भरं ते बिम्बफलम् शम्बरारिणान्यस्थम् जय जय जगदम्ब शिवे जय जय कामाक्षी जय जय जयाद्रिसुते जय जय महेशदयिते जय जयत् गगनकौमुदीधारे आर्याशतकम् भक्त्या पठता मरिया कृपाक्षे निसरती वधनकमला पीयूषोरणी दिव्या